नारायणम् नमस्कृत्या नरं चैव नरोत्तमम् देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् अथ श्रीमहाभारते आदिपर्वणि सम्भवपर्वणि षट्सप्ततितमोऽध्यायः जनमे जयौवाच ययातिः पूर्वजोऽस्माकं दशमो यः प्रजापतेः कथं सशुक्रतनयां लेभे परमदुर्लभाम् एतदिच्छाम्यहं श्रोतुं विस्तरेण तपोधना आनुपूर्व्या च मेषंसा राज्ञो ययातिरासीन्द्रुपतिर्देवराजसमद्युतिः तं शुक्रवृषपर्वाणौ वव्रा ते वै यथा पुरा तत्तेऽहं सम्प्रवक्ष्यामि पृच्छते जनमेजया देवयान्याश्च संयोगम् ययातेर्नाहुषस्य च सुराणामसुराणां च समजाय वैमिथ ऐश्वर्ये प्रतिसङ्घर्षस्त्रैलोक्ये स चराचरे जिगीषया ततो पौरोहित्येन याज्यार्थे काव्यं तूषणसम्परे ब्राह्मणौ तावुभौ नित्यमन्योन्यस्पर्धिनौ भृशं तत्र देवानि जगभुर्यान् दानवान् विधिसङ्गतान् तान् पुनर्जीवयामासा काव्यो विद्या बलाश्रयात् ततस्ते पुनरुत्थाया योधयांश्चक्रिरे सुरान् असुरास्तु निजग्भुर्यान् सुरान् समरमूर्धनि न तान् सञ्जीवयामासा विद्यां यां काव्यो वेत्ति वीर्यवान् ततो देवा विषादमगमन्परं ते तु देवाभयोद्विज्ञाः काव्यादूषनसस्तदा पतेः भजमानान् भजस्वास्मान् पूर्वस्साह्यमुत्तमम् या सा विद्यान्निवसति ब्राह्मणेमित तेजसि शुक्रेतामाहर क्षिप्रं भागभाङ्गो भविष्यसि वृषपर्वसमीपे हि शक्यो द्रष्टुं त्वया द्विजः रक्षते दानवांस्तत्र न स रक्षत्य दानवान्स्तमाराधयितुं शक्तो भवान् पूर्वमयाकविं देवयानीं च दयितां सुतां महात्मनः त्वमाराधयितुं शक्तो नान्यः कश्चन विद्यते शीलदाक्षिण्यमाधुर्यैयाचारेण दमेन च देवयान्यां प्राप्स्य सिध्रुवं तथेत्युक्त्वा तत प्रायाद् बृहस्पतिसुतकचः तथविपूजितो समीपे वृषपर्वणः सगत् त्वरितो राजन्देवैः सम्प्रेषितकचः असुरेन्द्रपुरे शुक्रं दृष्ट्वा वाक्यमुवाचः रुषेरङ्गिरसपौत्रं पुत्रं साक्षात् बृहस्पतेः नाम्ना कचमिति ख्यातं शिष्यं कृत्नातु मां भवान् ब्रह्मचर्यं चरिष्यामि त्वय्यहं परमं गुरौ अनुमन्यस्व मां सहस्रं परिवत्सरान् शुक्रौवाच कचसु स्वागतं तेस्तु प्रतिघृह्णामि ते वचः आचयिष्येऽहमर्च्यं त्वामर्चितोऽस्तु बृहस्पतिः वैशम्पायनौ उवाच कचस्तुतं तथेत्युक्त्वा प्रतिजग्राह तद्व्रतम् आदिष्टं कविपुत्रेण शुक्रेणोशनसा स्वयं व्रतस्य प्राप्तकालं स यथोक्तं प्रत्यघृणता आराधयन् उपाध्यायं देवयानीं च स्तौ युवा यौवनगोचरे गायन् नृत्यन्वादयंश्च देवयानीं तोषयत् सशीलयन्देवयानीं कन्यां सम्प्राप्त यौवनां ैफफलैः प्रेषणैश्च तोषयामास भारता देवयान्यपितं विप्रं नियमव्रतधारणं गायन्ती चललन्ती च रहपर्यचरत्तथा पञ्चवर्षशतान्येवं कचस्य चरतो व्रतं तत्रातियुरथो बुद्ध्वा दानवांसं ततकचं गारक्षन्तं वने दृष्ट्वा रहस्येकमर्श्रिताः जग्नुर्बृहस्पतेर्द्वेषाद्विद्या रक्षार्थमेव चा हत्वा शालावृतेभ्यश्च प्राच्यश्चल्लवशाकृतं ततो गावो निवृत्तास्ता अगोपा स्वं निवेशनं सा दृष्ट्वा रहिता गांश्च कचेनाभ्यागतापनात् उवाच वचनं काले देवयान्यथ भारता देवयान्युवाचा आहुतं चाग्निहोत्रं ते सूर्यश्चास्तं गतं प्रभो अगोपाश्च गता गावः कचस्तात न दृश्यते व्यक्तं हतो मृतो पापी कचस्तात भविष्यति तं विना न च जीवेयमिति सत्यं प्रवीमिते शुक्र उवाचा अयमेहीति संशब्द्या मृतं सञ्जीवय ्यहं ततः सञ्जीविनीं विद्यां प्रयुज्य कचमाह्वयत्त्वा भित्त्वा शरीराणि वृकाणां समि निर्गतः आहूतः प्रादुरभवत् कचो हृष्टोत विद्यया कस्माच्चिराहितोऽसीति पृष्टस्तामाह भार्गवीं समिधश्च कुशादीनि काष्ठभारं च भामिनि गृहीत्वा शमभारार्थो वटवृक्षं समाश्रितः गावश्च सहिताः सर्वा वृक्षच्छायामुपाश्रिताः असुरास्तत्र मां दृष्ट्वा कस्त्वमित्यभ्यचोदयन् बृहस्पतिसुतश्चाहं कचै इत्यभि विश्रुतः इत्युक्तमात्रे मां हत्वा मानवाः दत्वा शालावृकेभ्यस्तु सुखं जग्मुलयम् आहुतो विद्यया भद्रे भार्गवेण महात्मना त्वत्समीपमिहा यातः कथञ्चित् समजीवितः अतो हमिति चाच्चख्यौत्पृष्टो ब्राह्मणकन्यया स पुनर्देवया न्योक्तः पुष्पहारो यदृच्छया वनं ययौकचो समुद्राम्भस्य मिश्रयन् चिरं गतं पुनः विप्रेण पुनराहूतो विद्यया गुरुदेहजः पुनरावृत्य तद्वृत्तं तद्यथा ततस्तृतीह्यं हत्वा तं दग्वा कृत्वा च चूर्णशः प्रायच्छन्ब्राह्मणायैव सुरायामसुरस्तदा देवयान्यथ भूयोऽपि पितरं वाक्यमब्रवीत् पुष्पाहारप्रेषणकृत्कचस्तात न दृश्यते व्यक्तं हतो वापि कचस्तात भविष्यति तं विना न च जीवेयं कचं सत्यं ब्रवीमिते शुक्र उवाच बृहस्पते सुतपुत्री कचप्रेतगतिङ्गदः विद्यया हन्यते करवाणि किं मैवं मारुतदेवयानि न त्वादृशीमर्त्यमनुप्रशोचते यस्यास्तव ब्रह्म च ब्राह्मणश्च सेन्द्रदेवावसवोधानौ च सुरद्विषश्चैव जगश्च सर्वमुपस्थाने सन्नमन्ति प्रभावात् अशक्योऽसौ जीवयितुम् विजातिः सञ्जीवितो देवयान्युवाच यस्याङ्गिरा वृद्धतमपितामहो बृहस्पतिश्चापि पिता तपोनिभिः ऋषे पुत्रम् तमथो वापि पौत्रम् कथं न शोचेयमहं न हृद्यां च चा तपोधनश्च सदोत्थितः कर्म स चैव दक्षः कचस्य मार्गे प्रतिपत्स्येन भोक्ष्ये प्रियो हिमेतातकचोऽभिः वैशम्पायनौ वाच सपीडितो देवयान्या महर्षिः समाह्वयत् संरम्भाच्चैव काव्यः असंशयं वा मसुराद्विषन्ति ये मे शिष्यानागतान् सूदयन्ति अब्राह्मणम् कर्तुमिच्छन्ति रौद्रास्ते मां यथा अप्यस्य पापस्य भवेदिहान्तः कम्ब्रह्म हत्या दहेदपीन्द्रम् गुरोर्हिभीतो विद्यया चोपहूतः शनैर्वाक्यम् जठरे व्याजहारा कचौवाच प्रसीदभगवन् मह्यं कचोऽहमभिवादये यथा बहुमतः पुत्रस्तथा मन्यतु मां भवान् वैशम्पायनौ उवाच तमब्रवीत्येन पथोपनीत त्वम् ब्रूहि विप्र कचौवाच तव प्रसादान्न जहाति मां स्मृतिः स्मरामि सर्पे यच्च यथा च वृत्तम् नत्वेवम् स्यात्तपसः संशयो मे ततः क्लेशम् घोरमिमं सहामि असुरैः सुरयाम् भवतोऽस्मि दत्तो हत्वा दग्वा चूर्णयित्वा च काव्या ब्राह्मीम् मायाम् चासुरीम् विप्रमायाम् त्वयि स्थिते कथमेवार्ति वर्तेत् शुक्र उवाच किं ते प्रियम् नान्यत्र कुक्षेर्मम भेदनेन दृश्ये कचो मद्गतो देवयानि वाचा द्वौ मां दहेताम् कचस्य नाशस्तव चैवोपघातः कचस्य नाशे मम नास्ति शर्मत्तपोपघाते जीवितुम् नास्मि शुक्रवाचा संसिद्धरूपोऽसि बृहस्पते सुत यत्त्वाम् भक्तम् भजते देव यानि विद्यामिमां प्राप्नुहि जीविनी त्वम् न चेदिन्द्रः कच रूपी त्वमद्य न निवर्तेत् पुनर्जीवन् कश्चिदन्त्यो ममोदरात् ब्राह्मणम् वर्चयत्यैकम् पुत्रो भूत्वा भावय भावितो मामस्मद्देहादुपनिष्क्रम्यता समीक्षेथा धर्मवतीमवेक्षाम् गुरोः सकाशात् प्राप्य विद्याम् संविद्यः गुरोः सकाशात् समवाप्य विद्यां भित्वा कुक्षिं निर्विचक्रामभिप्रह कचोभिरुपस्तत्क्षणाद्ब्राह्मणस्य शुक्लात्ययपौर्णमास्यामि वेन्दुः दृष्ट्वा चतं पतितं ब्रह्मराशिमुत्थापयामासमृतं कचोऽपि विद्यां सिद्धान्तामवप्याभिवाद्य ततः कचस्तं गुरुमित्युवाच यश्रोत्रयोरमृतं सन्निप्सिञ्चेद् विद्यामविद्यस्य यथा ममायम् जानन् उतस्य दातारमनुत्तमस्यापि निधीन लब्धविद्याः येनाद्रियन्ते गुरुमर्चनीयं पापान् लोकांस्ते व्रजन्त्यप्रतिष्ठाः वैशम्पाय न उवाच सुरापानाद्वञ्चनां प्राप्य विद्वान् सन्न्यान्नाशं चैव महातिघोरं दृष्ट्वा कचं चापि तताभिरुपं पीतं तदा मोहितेन समन्युरुत्थाय महानुभावस्त शन विप्रहितं चिकीर्षुः सुरापानम् प्रति सञ्जातमन्युः काव्यस्वयं वाक्यमिदं च गादा यो ब्राह्मणोद्यप्रभृतिः कश्चिन्मोहात्सुरां पास्यति मन्दबुद्धिः अपेतधर्मा ब्रह्म चैव सस्यादस्मिन् लोके गर्कितस्यात्परे मया चैतां विप्रधर्मोक्तिसीमां मर्यादां वै स्थापितां सर्वलोके सन्तो विप्राशुश्रुवांसो गुरूणां देवालोकाश्चोपशुण्वन्तु सर्वे इतीदमुक्त्वा समहानुभावत्तपोनिधीनां निधिरप्रमेयः तां दानवान् दैव विमूढबुद्धिमिदं समाहूय वचोभ्युवाच आचक्षेवो दानवा बालिशास्तसिद्धः कचो वत्स्यति प्राप्य विद्यां महात्म तुल्यप्रभावो ब्राह्मणो ब्रह्मभूतः योकार्षी दुष्करं कर्मदेवानां कारणात्कचः न तत्कीर्तिर्जरां गच्छेत् यज्ञेयश्च भविष्यति एतावदुक्त्वा वचनं विररामसभागवः दानवाविस्मयाविष्टाः प्रययुःसन्निवेशनम् गुरोरुष्यसकाशे दशवर्षशतानि सः अनुज्ञातकचो इति श्रीमहाभारते आदिपर्वणि सम्भवपर्वणि ययात्युपाख्याने षट्सप्ततितमोऽध्यायः